राधे राधे राधे राधे राधे रधे वृन्दानि सर्वमहताम् अपहाय मनुसर वृन्दाटविमनुसरप्रणयेन चेतः वृन्दानि सर्वमहताम् अपहायदूरत् वृन्दाटवीमनुसरप्रणयेन चेतः सत्तारणीकृतसुभावसुधारसौघम् राधाभिधानमिह दिव्यनिधानमस्ति सत्तारणीकृतसुभावसुधारसौघं राधाभिधानम् इह दिव्यनिधानम् अस्ति